सरस्वती धर्मजीपुः रथे स्वाहा अहो मीनसिन्धुरन्याः येषाः रथसरस्वती नदीनां निर्य गिरिभ्यासमुद्रात् राजा ो दधा दिविसादने धन्मृजीत पुनश्च न सरस्वतीजुषानो यज्ञे अस्मिन् ृक्षम् अयूते सरस्वतिवसिष्ठो द्वारा गृहस्य सुभगेव्यावः शुभ्रे सुभदे राजम् रातस्वस्तिभिस्वदामः बृहदु गायिरेव सरस्वतीन्मा हातु भक्तिभिस्तो मयि अर्वधिष्ठी उभे यजते महिला शुभ्रे अन्धसि अधिक्ष्मी भूरवाः ो भोजिवित्रीभुत्सखादो दरादो बहोनाम् भद्रमिद्भद्राग्रेण वत्सरः स्वत्यकवादी चेदति वादिनीवती ज्ञानाजामदग्निवत्सूनाजावसिष्ठवत् निनीलम् भोन्वग्रवः पुत्रीयम् तत् सुदानावह सरस्वन्तम् भवामहे ये ते सरस्वपूर्मजो मधूमन्दो घृतस्तु ताः देभृन्दो विताभावतस्त्वमन्दो विश्वदर्शनः प्रजाविषम् यो विषदेवयवो मदन्ति न्द्राय प्रथमानानि सन्देगाय प्रथमम् वयश्च आदीया श्रीमनेवान् बृहस्पतिम् आसः यथा भवेमीरुयोपदाः सुब्रह्म नस्पतिम् इन्द्रम् श्वो गोमहिले यस्य रक्त ब्रह्मणो देववीरस्य राजा सानो यो निेष्ठ बृहस्पतिर्विश्वरो यो अस्ति कामो राजसुवीर्यस्य सम् धात्मगृहम् नो मनी अनिष्ठान् निधासुरमृता सः पुरायाः शुचिक्रन्दम् जलम् वश्यानाम् बृहस्पतीवनर्वाणम् मुरेण तम् षद्वासो वर्वासो अस्वा बृहस्पतिम् सहवाहो वहन्ति ञ्जवावेशनिकः पुरुषिभ्या सुनिम् करिष्ठः देवी देवस्य रोदीजनित्रीबृहस्पतिम् वा विध दुर्मित्वा रक्षायाय दक्षता सखाय ब्रह्मणेषु तरासु गाधाम्बाम् ब्रह्मणस्पतेषु नित्यर्भेन्द्राय ब्रिले अनि मृष्टम् धिरो लिपलम्बलम् धीर्चस्तव नृहस्वदे युवमिन्द्रवस्वो दिव्यस्य पार्थिवस्य धात्रा गीरजे चिजूरम् वादस्वस्ति विश्ववारुणम् दुग्धवंशम् विहोदनृवालक्षिदीनाम् ौराद्देवीयात्म पनन्द्रो विश्वादि सुखि तरन् चिरेन्दम् नो नमन सानुदानन्विन्द्रीलान्वान् ोधया मन्यमानाम् साक्षान् बाहुविः श्वासदानान् इन्द्राविरुद्ध्यास्तम् त्वयादिनो नीनृतमाना भवते सोमो अस्य अङ्गूर्यस्य गवादिका इन्द्रभक्ष्महि प्रजानमस्वामिन्द्र शमसो दिव्यस्य शाखे कृतपा ोमने गी विद्यो मात्रामृता ने महि त्वमन् वश्नुवन्ति श्रीकृष्ण्या विष्णो देवत्वम्बरमस्य वित्से न जातो देव महिम्नः परमम् उदस्तम् ऋन्तम् दादर्थम् प्रभुभम् पृथिव्याः यतीमयीः भूतम् सूयमसिनीमनुषेण स्यात् ृथिवीमभितो मयूखैः पुरम् यज्ञाय तत्र सुलोकम् जनयम् पद्निम् दासस्य चित्रिणप्रस्य माया पृथनाद्येषु इन्द्राष्णोद्रम् हितावतिम् सहस्रम् च धर्मोपीला दृगन्धोक्रमादवसा वर्धयन्ति अरे वा जनेष्न्द्र भगद्दे विष्णवास आगो वितन्मेजुगस्तसिमिष्टहव्यम् बद्धम् दत्त्वा दुतयोगिरो मे योजम्बासप्ते जन्याम प्रायमेव रामो मलिम् राः अत्यस्तुरस्य भूरेर स्वाबलपुरश्चन्द्रस्य राजः ेवः पृथिवी वेदजेतामितक्रमे शरच्च संवहित्वा प्रविष्णो रस्तु तव सवीया श्वेतम् क्रमे पृथिवी वेदजेता क्षेत्रायशन् ज्वारो अस्य कीलयोजना प्रपुरक्षितिम् सृजलीमाजकारदत्ते अद्य सेतुविक्तमार्जस्वम् दामि भजनानि विद्वान् हन्द्वाग्रामि तव तमलौजायम् तमस्य रजसत्परागे ीते विष्णुपरिदक्षणम् भो त्वमिष्टो अस्मि मास्मदबागूभये रज्जन्योधक्ते विष्णबासः कृणो विसन्मे विभस्वधिविष्टहम् म् भृत्वा जि मे यूयम् वादस्वस्तिभिस्त भद्रान् अपि वादजमनाः ओ हरि राजा प्रेमोर्ध्वो धाः सर्वत्र मृन्वन्वध्वमोदरधीरान् सद्यो धातो वृद्धवो रोधवीति यो वध्वोदधीताम् जो अवाञ विश्वस्य जगतो देवयीते ज्योतिष्वृद्या अस्मै शरीरोपद्भवदिसूतमुद्बद्यथावसम् ब्रह्मप्रतिरुबद्धदेशेन पुत्रः यस्मिन् विश्वाः ऋगुवाराणि तस्वस् त्रिस्रोद्यापस्त्रे दश्रः कोशाः त्वम् इयम्वतः पर्जन्याः यस्वराजेन्द्रज्जोष योगो सुरे गोदामस्वश्व जगदस्वश कर्मजूयम् वा अर्जन्यायप्राय जलसूताय विषये स नो यव समिच्छतु जोगर्भवोगीनाम् गवाम् ग्राम् अर्जन्यः पुरुषीणाम् अस्मासे हर्जोदाम् इरा नः संयतम् ्रतरा ब्राह्मणा प्रः वासम्बिताम् प्रमण्डूगापारिभो दिव्या आपो अभिजते नमाजम्नदुष्कम् सीलकानम् गमामहनमायुर्वत्सीनाम् मण्डूगानाम् वग् यदि एमेनाम् बुधतो अभ्यवर्षे दृश्यवत प्रादृश्यगतायाः विरमपुत्र अन्यो अन्यमुपवदन्तमेति अन्यो अन्यमनुगृह्णात्येनो गाम् प्रसगे जलमन्विभाताम् ृष्टः करिष्टम् समृन्दे हरिवादनम् अन्यस्य वादनम् सादनिक्षमाणः सर्वम् तदेशान् समृद्धे भवर्भयत्सु वादराध्य गो जुरे गोमायुरे गो हरि हरे कलमा मित्रो निरूपाः पुरुद्रावाचि सर्वदन्तः ब्राह्मणा सो हरियात्रेण सो वेदरोनपूर्णमभिनोपदन्तः संवत्सरस्य तदः परिणो गात्राभिषीरम् बभूव ब्राह्मणा तः स्वामिनावाच्रह्म गण्वन्तः परिवत्सरीरम् घर्मिणः सृष्टितारा आविर्भाव हीतिम् जगमद्वादरस्य संवत्सरे प्राविश्यगतायाम् तप्ताहमास्नुवदे विसर्गम् ओमायुरदा जनमायुरदात् तस्मीलदाध्वनि गवा मण्डूकादलदश्वि सहस्रसारे प्रतीरन्दायुः उपप्लवदमण्डूकी वर्षमावदलादुवि मध्ये हृदस्य प्लवस्य निगृह्य चतुरः परः इन्द्रासोपात संरक्षण्यजतम् मृगनाथमो वृधाः पराश्रीतमधिगतम् फलम् मृते सान्निमत्रिणाः इन्द्रासो मासमम् समभ्या अगन्तपुरुजयस्तु सर्वज्ञवान्न धनपायन्ती इन्द्रासोमा दुष्कृतो भो अण्डलारम् भवे तमसि प्रविध्यतम् यथा नातः पुनरेकस्तनोदयत्तद्वा मत्सुरः सेवन्निवत्सवाः इन्द्रासोमा भक्तजातम् दिवोपदम् पृथिव्याघतम् तायतर्णम् उत्कक्षतम् स्वर्या अम्बर्वे दक्षो वावृधानम् विदूर्व इन्द्रासोमा भक्तजातम् दिवस्पर्जग्भितेभिर्जिवस्महन्नभिः कपुर्वधे कर्तृभिध्यतम् जन्तो निःस्वनम् इन्द्रातो माम्भो विश्वत इयम् मदिष्टक्षा सेव बाजिलाम् वाम्भोत्रापरि हिलोमी मेधदेवा ब्रह्माणि यो इन्द्रासो देवा दुःखम् भोज्यो नः कदाचिदभिलासुहागरम् तमभिषष्टे भक्ता ये पाकिहरम् दरे वैर्ये वा भद्रम् दूर्भयम् विश्वदाभिः अराजे पातान् प्रदरा दधानिर्वेदे नृपस्य यो दो न संविच्छिवितो अग्नेजो अश्वानां योगवां यस्तूनाम् ऋगुस्तेनस्ते जगद्व्रमे दुरिवाद परस्व आपनादुस्र पृथिवीरतो अस्तु विश्वाः यो नो दिवादियश्चनत्वम् सविज्ञानन्ति विशश्च सच्चपचीपस्तु सजो यत्सत्यम् य धरदृशी यस्तरि सोमो वजिन्यासत् सोमो विजृम्भिक्षियम् विधुयाधारयम् न्ति लक्षो हसत्वन्द्रश्च प्रसीदौ सजाते यदि वागमवेदेवोगे अग्ने कि किमस्मभ्यम् जातवेदोद्रो भस्ते निर्भृतन्ता ीरा दायदिवायस्तनूदूढस्य मामोघम् जातु धानेत्याह यो मायाहघम् जातु धानेत्याह यो मा, मा रक्षाश्रुतीरस्मीत्याह किन् स्तम्भम् त्वमरा जन्तो रमस्पादेष्टिगादिघनकलेद्रुहाधन्वाङ्गुहमाना वग्राङ्कन्ता ग्रावानो घ्न रक्षदा उपादैः देवे रे प्रवर्तय अस्मा अस्मानमिन्द्रजो मासितम् श्रीसाधि पर्वतेन एत उद्धेपादयम् ऋश्वरादमहीन्द्रम् नृत्रम् जि चित्रबोदाभ्यम् शिशीते चक्रः पिशूदेभ्यो वसम् नूनम् श्रेयदशनिम् इन्द्रो जातो नाम अभिदू ध्याक्रम् पात्रेदान् सदले रक्षसाः लोकजातम् त्रिशुलोकजातम् जयिष्वयाः लोकजातम् सुपन्न जातुम् पार्थिवात्मा त्वम् सौन्दरिक्षम् दिव्यात्मा त्वस्मानि ीवासोरदेवादृतम् सूर्यमुक्तम् प्रति च विलक्ष्वेन्द्रश्च सोमजाकृतम् लक्षोद्योधमश्च विश्वेश्वराय नमः ओन्यद्विषम् सतथा सुदेवो वृक्षा च संसदात् अभद्रकिरणम् रक्षमयभाजुरङ्गान्नमम् नो भयङ्करम्भयानम् यच्चिद्विद्वाजना शिवे अस्माकम् ब्रह्मेतमिन्द्रभूदुरे विश्वा च बद्धनम् विधस्तूर्ये महान्विभो जनानाम् उपक्रमस्व पुरुषोपमाहेश्वय देनाम् न सहस्रा जनायुताय वृणसराय सरामघ तस्याङ्गीन्द्राश्रि मे बिलुलभ्रादुरभुञ्जयः <mí> जिद्धिते ुद्मख जगत्पुरन्दरः प्रगायत्राः गास्मै गायत्रवत्तर वा दुर्यः पूरम्बरः ोपरिजा सद्भ्रीत्पुराः एते सन्दीरी अश्वा नोरभ्रे नष्टो यमगरि आत्त्वा अद्य भुवेगा यत्र वेदे पुनम् धेनं रामकृतम् को बालस्तवन्दिनात्सवासरमकृतम् यदि पुरा चतुर्भ्य आदृशाः न्धापुरोपुरिष्वताम् पुनः मा भो मनुष्यायन्द्रत्वदरणायवनाय प्रलीलान्यद्रिवो द्रोणासो अमन्महि अमन्मही नासवो दुर्गासत्र जगत्सु देवमहि जय सोन्द्रविन्दवः शिरः पवित्रं सुवान् च आसभो बन्दन् आजस्तुम्बा दुः सुरागरि उपस्तुतिर्मघो नामृत्वा वासयन् अधर्मो अध वा यो जादधि अयावर्धस्वधन् गिरा मम जाताशुत्व इन्द्रायसुमीन्दोमम् सोतावरेण्यम् शक्रजीमद्विश्वाधियाजयुम् सोमस्य पात गन्धायासाराचनम् अहङ्गिरा ेषु चक्रुधामीराजेनेषु समसा विश्वय गुरुदेवो मुद्राय दाजु स्तु पदे च राशते विश्वः येन्द्रजाहिमत्सत्रेण देवराधसा सरो न प्राश्युतरम् सभीतिभिरा सोमेभिम् आत्वा सहस्रवासतुक्ता रथे हिरण्ये ब्रह्म योहरजिन्द्रकेशिरावहम्बीतरे आत्मा रते हिरण्यजेखरीमयूरासेव्या श्रीपृष्टावहताम् मो अन्धतो विमक्षणस्य पीतले श्रीवानस्य कर्मणः सुरस्य पूर्वायैव एको अस्ति अभिव्रतैः शिवेन सोम्बरम् च विष्णवम् व्रदैः सृष्टस्य संवेण मम त्वासु रौजीते मम प्रतित्वे अभिरेव सहास्तो मासो अवत्तरा देवम् दृष्टासो मघो नाम् मेध्यादिरेभजाहं वदेश्रवसूरश्चिकेत श्रीयाद्वः पशुः हेद्रामह्यम् मा महेश्वर त्वजाभिश्वान्यब्दस्तु सौभागासङ्गस्य स्वनद्रथः ्रमाणः शीनार्यभिलक्षा हसुभद्रमर्यभोजनम् बिबर्षि इलम्बोधापि बाहोर्नमुदरम् अनाभयम्भूतः सुतोभूतः नदीषु सन्देहम् यथा गोभिः स्वादुमाकर्म श्रीमन्दाः इन्द्रत्वास्मिन् इन्द्रये क इन्द्रु तवा निश्वायोः अन्तर्देवान्मत्यांश्च न जाम् सु न दुराशीर्न दृत्यसम् अवस्मिन् सुभाम् गो भजति मन्ये अस्मन् मृगन् लम्रा हृदयम् ते अभिच्छरम् नयेन्द्र सुदासन्धेवस्य स्वेच्छानाः त्रयः कोदासो नन्द्रम्बा अश्वपूर्णाः समाने अधिवान् मन्दीरसिगुरुनिष्ठाः श्रीर्मज्ज्वीर्तःष्ठरस्य इन्द्रोमास्तीगास्ते सुः शुक्ता आशिरम् जाचन्ते ताम् आशिरम् पुरोलासमिन्द्रेवम् सोमम् श्रीणिः एवम् अम्भित्वा शृणोमि हृत्सुपीलासो युधन्ते धर्मदा सोमसुरायाम्नाचारन्ते ेव्यात्मा बलो मघो नेतुरिव श्रुतस्य मुग्धम् जनसचलाः नो रविराचीकेता न का यत्रम् गीयमानम् मानायन्द्रपि जनदेवाः शिक्षा भजवत्वादृशर्था इन्द्रत्वायम् तस्वरा अन्वा उक्तेभिर्जरन्ते मन्यतापन्नवसो नविष्टौ तवेदसोमम् दिवेदा इच्छन्ति देवा शृण्वन् अन्नः स्वप्नाय स्पृहयन्ति प्रमादमदन्द्राः कोढप्रजा हिमादे धर्माभिधा अभ्या अस्मान् महान्ति वैवजानिःष्वा अर्भदुर्भयङ्कारे अस्मत् श्रीरयी भजामाता यद्बाह्यस्य वीरस्य भूरिं सुमतिम् समसि जगन्वात्तेन्द्रायम् धीराय शक्त्वाय भराभिन्नर्याय यो वेतिष्ठा यजेष्वस्वा मन्दम् च ऋतुभ्याः वायम् सोदृभ्यो गोमन्दम् ोदाय सोमम् गीरायसूराय मातास्मदे नियमते ए ब्रह्म युदासक्वक्षदसम् गीर्भ्यः सुलम् निर्वागतम् रभस्तो मायाहि सीतास्तो मायाहि चक्रेण्डुषे हि वस्तुतेः मोनाय मत्सा सहमादम् सुरस्तया स्वाबद्धम् विमहे राधाय इन्द्रकारिणम् बृहन्ताः इदस्तयास्ते जर्वाहुधानि सनातवृत्तो जयते हम् दिणेन्द्रः पुरुपोनुभूतः महान्महीभिः स्वजीविभिः यस्मिन् विश्वास्तयुदक्षौत्राद्र्यांसि घोराः येन एतानि च काले शृण्वे मघोना प्रभटम् गव्यन्द्रिद्योमोढा सनि प्रोहर्वः भृत्रङ्गभिश्चूराः यजद्वैरम् प्रियवेधा योगोत्सो मयि सत्यमद्वा राज्रा संसत्त्वादिं समस्कामम् बुरुत्मानम् अन्वासो गातवाचिनम् यदृभ्योदात्स काव्यभ्यस्तृ श्रिरन् इत्थादिवन्द्रिम्यादिथम् मे भूतो शिक्षा विभिन्नो अस्मै सत्वा देविभाजा भरसहस्रा उदरुते पयो मार्गच्छा हेवामत्वा नयेन्द्र गोमातः आर्णो बोधितसमाज्यो हृदे बन्धुतेः भूजा मासु मतौ वायिनो जयमानस्व ोणी मयम् सहस्रमृष्टेभिः सहस्कृतसमुद्रजी भव प्रदे सद्यस्यो अस्य महिमावि प्रराजे इन्द्रविद्देवता जीन्द्रम् प्र यत्यध्वरे इन्द्रम् सबीते भवामहीन्द्रम् धनस्य सादये इन्द्रो बह्वारोदयधीमप्रन्द्रूर्यावरोचयत् इन्द्रे गणेश्व पूर्वपीयिन्द्रस्तो मेभि राजवः स्वरपूजयम् अस्य इन्द्रो बाबेवे शं स भोम दे सुदस्य वि महिमानमायवो नष्टुवन्ति पूर्वथामितरे चक्रे श्रद्धीना इन्द्रयत्वाय प्रशंसिदासते सद्भिः सोमाय पूर्व श्रद्धीना अस्य यद्ध पौरवामि सध्यायन्द्रहास कृपमिन्द्र प्रापस्मर्नरम् कर्णं यो अदशीनाम् सुरोग्रीणीतमत्याः महेन्वस्य महिमानामिन्द्रियान् स गृहन्दा आनसुः कतुस्तु मन्द हृदयन्द्रदेव नविषिक्को विप्राहोहते कदाहवम् अघवन्विन्द्रयम् वदः कदस्तु वद आगामः ेवूमत्तमागिरसो वा शैरते अत्राय धी गोद्रयोवाजयम् दोरथायिव अनन्वायिव भृगवसूर्यायव विश्वविद्वितमानो इन्द्रां स्तोमे ब्रह्मयम् तायव श्रियमेधासो अस्वरङ्ग र्वाचीनो माघवान् सोमापीज उग्रे हि पारवो बाभ्या विप्राः सो मेधराले सर्ववन् इन्द्रगीर्वनो मे नो न श्रीमधीहम् ृत्रम् पर्वस्य कालः निरकयोः सोमीन्द्रियोः निरन्द्रविक्षादीन् मेरु इन्द्रोः मरुतः पाकस्था मा ोऽधिष्ठमुपे धावोहितम् एवागस्तारम् रक्षप्रा अदायो अन्येतसत्र विदुरम् वहन् निबन्धयः संवयो नुभ्यम् आत्मा विदुस्तरो ्रोही तस्य पाकस्थामानम् भोजम् दातारम् पुरोषोतो अस्या नवेशि प्रसर्थ कुर्वसे यद्वारुमे कृपयुमादयसे अन्वास स्वा ब्रह्मभिस्तोमवाह स इन्द्रा गच्छन्दा गि यथा गौरो अपागृहम् यक्षन्त्यम् आवित्रेण प्रदे मन्द्रम् दत्तामगमन् इन्द्रेन्द्रहोराधोरे हो ेषसहो ब्रह्मोजसा विश्वे दैनादवोजहो निवृक्षाजीविरे सहस्रे नैव ोषति स्वागाविसभामुपनिषन् निमे च मानो मधवन् द्विवेदी भो जिवे